श्रीमद्भागवतमहापुराणं चतुर्षस्कन्ध अष्टषड्विंशोऽध्यायः नारद्वाच सा एकदा महे श्वासो रथं पञ्चाशुमाशुघं द्वेषं द्विचक्रमेकाङ्क्षं त्रिवेणुं पञ्चबन्धुरम् एकरश्मेकदमनम् अनेकनीडं द्विकूबरम् पञ्चप्रहणं सप्तवरूथं पञ्चविक्रमम् हैमोपस्करमारुह्य स्वर्णवर्माक्षये सुधी एकादश्यमूनाथ पञ्चप्रस्थमगाध्वनं चचार मृगयां तत्र आते आत्तेषु कार्मुकः विहाय मदर्थारहं हा मृगव्यसनलालस आसुरं नृत्यमाश्रित्य घोरात्मानिरनुग्रहः न हनन्येषितैर्बाणैर्वेषु वनगोचरान् तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशुन्वने यावदर्थमलं लुब्धो हन्यादिति नियम्यते य एवं कर्म विद्वान् कुर्वीत कर्मणा तेन राजेन्द्रज्ञानेन न संलिभ्यते अन्यथा कर्म कुर्वाणो मालारूढो निबध्यते गुणप्रवाहपतितो नष्टप्रज्ञो वृजत्यथा तत्र निर्भिन्नगात्राणां चित्र वाजय श्रीरेखै विप्लवो भुद्दुःखितानां दुःसहकरुणात्मना शशान् वाराहान् महिषान् गवयान् रुरुषल्लकान् मेध्यानन्यास्य विविधान् विनिघ्नन् सममध्यगान् ततः क्षुत्रे परिश्रान्तो निवृत्तो गृहमेयिवान् चैतस्नानोचिताहार संविवेश गतक्लमः आत्मानमर्षयाश्चक्रे धूपाले पस्रगादिभिः साद्वलङ्कृतसर्वाङ्गो महिष्यामाददे मनः तृप्तोऽशिष्टसु दृप्तश्च कन्दर्पा कृष्णमानश न भजष्टत्वरारोहां गृहिणीं गृहिमेधिनीम् अन्तः पुरस्त्रियो प्रेक्षाद्युमनायु वेदि सत् अपि वकुशलं रामाः सेश्वरीलां यथा न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः यदि न माता पत्नी वा पतिदेवता व्यङ्ग्ये रथयो प्राज्ञ को नामासीद्दीनवत् च वर्तते सालननामद्यन्तं व्यसनार्णवे या मामुद्धरते प्रज्ञां दीपयन्ति पदे पदे रामा उचो नरनाथ न जानीम स्वप्त्या पश्यते भूतले निर्वस्तारे शयानां पश्य तत्रुहन् नारद्वाच पुरञ्जनस्वमहिषीं निरीक्ष्यावधृताम्भुवि तत्सङ्गोन्मचितज्ञानो वैक्लव्यं परमं ययौ सान्त्वन् श्लक् श्लक्ष्णया वाचा हृदयेनाभिदूयताम् प्रेयस्या स्नेहसम्भरन् लिङ्गमात्मनिनाभ्यगात् अनून्ये ससनकैर्वीरोऽनूनयकोविदः परस्पस्पर्शपादियुगलम् आहते सों सङ्गललालितां पुरञ्जन उवाच नूनं त्वकृतपुण्यास्ते भृत्या ये कृतागस्वात्मसा कृत्वा शिक्षादण्डं न संयुजे परमो नुग्रहो दण्डो भृत्येषु प्रभुणार्पितः बालो न भेदतत्वन्वि बन्धो कृत्यम् अमर्षणः सा त्वं तावलोकम् नीलालकालिभिरुपस्कृतमुन्नशं नः स्वानां प्रदर्शय मनश्विनिवल्गुवाक्यं तस्मिन् दममहं तव वीरपत्नी यो नद्रभूसुरकुलां कृत किल् विशस्तं पश्ये न वीतभयमुन्मुदितं अन्यत्र वैमुररिपूरितरत्र दाशान् वक्त्रं नते ते वितिलकं मलिनं विहर्षं सर्वं बभीममविवेष्टमपेतरागं पश्ये सनावपि सुचोपहतौ सुजातौ जिम्बाधरं विगतकुङ्कुमपङ्करागं तन्मे प्रसीद प्रसीदसृहृदकृतकिल्बिषस्य स्वैरं गदस्य मृगयां जसनातुरस्य कादेवरं वचगतं कुसुमास्त्रवेग विस्रस्तपुसते न भजेत कृते इति श्रीमद्भागवते महापुराणे प्रपञ्चां चैतायां चतुर्थस्कन्दे पुरञ्जनोपाख्याये सरविंशोऽध्यायः